नारदपुराणं पूर्वार्थम् अध्यायम् एट्टिफोर् सनत्कुमार उवाच कलिकल्पान्तरे ब्रह्मन् ब्रह्मणो व्यक्तजन्मनः लोकपद्मे तपस्तस्य सृष्ट्यर्थं सम्बूवधुः विष्णु कर्णमलोद्भूता वसुरौ मधुपैटभौ तौ जातमात्रौ पयसि लोकप्रलयलक्षणे जानुमात्रे स्थितौ दृष्ट्वा ब्रह्मणं कमलस्थितं प्रवृत्तावस्तु मालक्ष्यतुष्टाव जगदम्बिकां तदो देवी जगतर्त्री शैवी शक्तिरनुत्तमा नारायणाक्षि संस्थाना निद्रा प्रीता बभूवः तस्या मन्त्रादिकं सर्वं कथयिष्यामि तच्छृणु सृणा क्रोधनी शान्तिश्चन्द्रालङ्कृतशेखरा एकाक्षजीबीजमन्द्र ऋषिशक्तिरुदाहृता गायत्री च भवे छन्दो देवता भुवनेश्वरी षड् दीर्घयुक्तबीजेन कुर्यादङ्गानि षट्क्रमाद संहारसृष्टिमार्गेण मातृकान्यस्त विग्रहः मन्त्रन्यासं ततः कुर्यात् देवताभावसिद्धये हृलेखमूर्ध्नि वदने गगनां भुजे रक्ताङ्करालिकां गुह्ये माखोचुष्मां पदद्वये ऊर्ध्व प्राक् दक्षिणोद्दीच्य पश्चिमे सूत्ररेऽपि च सद्यादि ह्रस्वबीजाद्यान्वस्तव्याभूतसप्रभाः अङ्कानि विन्यस्येत्पश्चात्यादियुक्तानि षट्क्रमाद प्रह्माणं विन्यसेत् बाले गायत्र्या सहसं युधं सावित्र्या सहितं विष्णुं कपोले दक्षिणे न्यसेत वागीश्वर्या समायुक्तं वामगण्ठे महेश्वरं श्रिया धनपदिं न्यस्य वाम कर्णाग्रके पुनः प्रत्यास्मरं मुखे न्यस्य पुण्या गणपतिं सव्यकर्णपरिध कर्णगंडातालो न्यस्तव्यं वदने मूलं मूल भूप्श्चत्रो नसेद कंठमूल स्तन द्वंदे हृदयां भुजे युगले नाभिदेशे चदेशिकः बालांश पार्श्वजठरे पार्शां सा परके कृति ब्रह्माण्याद्यास्तनन्यस्य विधिना प्रोक्तलक्षणाः मूलेन व्यापकं देखे न्यस्य देवीं उद्यदिवाकर उद्यवाकरनिभां तुङ्गो रोचां त्रिलोचनाम् स्मरास्यामिन्दुमुकुडां वरपाशां कुशाभयां रदलक्षं जपेन्मन्त्रं त्रिमध्वकृनेतदः अष्टद्रव्यैर्दशां शेन ब्रह्मवृक्ष समिध्वरैः द्राक्षर्जुरवादा वादाद शर्करा नालिकेरकं तन्तुलाज्यतिलं विप्रद्रव्य अष्टकमुदाहृतं दद्यादर्घ्यं दिनेशाय तत्र संचिन्त्य पार्वतीं पद्ममष्टदलम्बाह्ये वृत्तं षोडशभिर्दलैः विलिखेत् कर्णिकामध्ये षट्कोणमधिसुन्दरं तद् सम्पूजयेत्पीठं नवशक्तिसमन्वितं जयाख्या विजया पश्चादधिता क्वा पराजिता नित्या विलासिनी गोधीत्याघोरा मङ्गलानव बीजाड्यमासनं दत्वा मूर्तिं तेनैव कल्पयेद् तस्यां सम्पूजयेद्देवी मा वाह्या वरनैप्रमाद मध्यपाद्याम्यसौम्येषु पूजयेदङ्गदेवताः षट्कोणेषु यजयन्मन्त्री पश्चान् मिथुनदेवताः इन्द्रकोणं लस्सद्दण्डकुण्डिकाक्षगुणाभयं गायत्रीं पूजयन्मन्त्री ब्रह्मणमभितादृश्यं रक्षकोणे शङ्खचक्रगदापङ्कजधारिणीं सावित्रीं पीदवसनां यजेद्विष्णुं च तादृशम् वायुकोणे परस्वक्षमालाभयवरान्वितां यजेत् सरस्वधीमच्छां रुद्रं तादृशलक्षणं वह्निकोणे यजेद्रत्नकुम्भं मणिकरं टकं कराज्ञां बिभ्रतीं पीतां तुन्दिलं धनदायकम् आलिङ्ग्यसव्यहस्तेन वामे ताम्बूलधारिणीम् कमसमारूढां महालक्ष्मीं प्रपूजयेद् पश्चिमे मदनं बाणपाशाङ्कुशशरासनं दारयन्तं जपरक्तं पूजयेद् रक्तभूषणं सव्येन पदिमाश्रिष्य वामेनोत्फलधारिणीं पाणिना रमणां कस्थां हृदिं सम्यक् समर्चयेद् ऐशान्ये पूजये सम्यक् विघ्नराजं प्रियान्वितं शृणि पाशधरं कान्तं वराङ्गासृकलाङ्गुलीं माध्वीपूर्णकपालाढ्यं विघ्नराजं दिगम्बरं पुष्करे विकलद्रत्नस्फुरषच्च स्फुर सिन्धूरसदृशाकारामुद्दामदविभ्रमां धृतरक्तोत्परामन्यपाणिनादुध्वजस्पृशाम् आश्लिष्टकां तामरुणं पुष्टिमर्चे दिगम्बरां कर्णिकायां निधि पूज्यौ षट्कोणस्याधपार्श्वयोः अङ्गानि केसरेष्वेदा पश्चात् पत्रेषु भुजयेद् अनङ्गकुसुमा पश्चाद्विधीयानङ्गमेखला अनङ्गगमनात्तद्वदनङ्गमदनाधुरः भुवनपाला गगनवेषा षष्ठी चैव ततः परं शशी लेखा गगनलेखा चेत्यष्टौ यत्र शक्दयः गङ्गखेटकधारिण्यस्यामापूज्याश्च मातरः पाद्मा बहिः समभ्यर्थ्या शक्रयपरिचारिकाः प्रथमानङ्गद्वया स्यादनङ्गमदनातदः मदनादुरभवनवेगा तदो भुवनपालिका स्यात्सर्वशिशिरानङ्गवेदनानङ्गमेखला चषकं ताल्लवृन्दं च ताम्बूलं चत्र उज्ज्वलं चामरे चां शुकं पुष्पं बिभ्राणा करपङ्कजैः लोकपालान् बहिर्यजेदन् वज्रादिन्यपि तद्बाह्ये देवीमिद्धं प्रपूजयेदन् मन्त्रि त्री मधुरोपेदैर्हुत्वाश्वसमिध्वरैः ब्राह्मणान्वश्व चे ब्राह्मणान्वशये चीक्रं पार्थिवान् पद्महो मदः पलाशपुष्पैस्तत्पत्नीमन्त्रिण कुसुदैरपि पञ्चविंशतिथा जक्तैर्जलैस्नानं दिने दिने आत्मानमभीषिं चेद्य सर्वसौभाग्यवान् भवेद् पञ्चविंशतिथा च तं जलं प्रातः पिबेन्नरः अवाप्यमहदिं प्रज्ञां कवीनामग्रणेर्भवेद् कर्पूरागरु संयुक्त कुङ्कुमम् साधु साधितं गृहीत्वा शालिपिष्ठमयीं कृत्वा पुत्तलीं मधुरान्वितां जप्तां प्रधिष्ठितप्राणां भक्षयेद्रविवासरे वशं न यदि राजानं नारीं वा नरमे वज कण्ठमात्रोदगे स्थित्वा वीक्ष्य तो योद्गतं रविं त्रिसहस्रं जपेन्मन्त्रं कन्यामिष्ठां लभे ततः अन्नं तन्मन्त्रे तं भुज्ये दश्रीप्रसिद्धये लिखितां भस्मनामायां ससाघ्यां फलकादिषु तत्कालं दर्शयेद्यत्रं तत्कालं दर्शयेद्यन्त्रं सुखं सूयेदगर्भिणी भुवनेशीयमाख्यादासहस्रभुजसम्भवा भुक्तिमुक्तिप्रदा नॄणां स्मर्तॄणां द्विजसतम तद कल्पान्दरे विप्र कदाचिन्महिषा सुरः बभूवलोकपालां तु जित्वा भुङ्क्ते जगत्त्रयं तातस्तत्पीडिता देवा वैकुण्ठं शरणं ययुः तदो देवी महालक्ष्मीचक्राद्याङ्गोध्यते दे जसा श्रीर्बभुवमुनिश्रेष्ठमूर्ता व्याप्तजगत्त्रयात् स्वयं साम्मखे शादींस्तु निहत्य जगदीश्वरी अरविन्दवनं प्राप्ता भजतामिष्टदायिनी तस्यासमर्थनं वक्ष्ये सङ्क्षेपेण शृणु द्विजा मृत्युक्रोधेन गुरुणा बिन्दुभूषितमस्तकाः बीजमन्त्रश्रियप्रोक्तो भजतामिष्टदायकः ऋषिर्भृगुर्निभृच्छन्दो देवता श्री समीरिता षड्दीर्घयुक्तबीजेन कुर्यादङ्गानि षट्क्रमाद तदो ध्याये जगद्वेद्यां श्रियं सम्पत्तिदायिनीं काञ्चनाभां गजैश्वेतैश्च किरन् मया मृदखडैः सिज्यमानां सरोजगां वराभयाब्जस्रग्धस्तां क्षौमवस्त्रां किरीडिनीं सिद्धलक्षं जपेन्मन्त्रं तत्सहस्रं पुने तथा सुगन्धकुसुमैरिष्वकमलैर्मधुरप्लुतैः महालक्ष्म्य उदिते पीठे मूर्तिर्मूलेन कल्पयेत् यजेत्पूर्ववदङ्गानि दिग्दलेश्वर्चयेत्तदः वासुदेवं सङ्कर्षणं प्रद्युम्नमनिरुद्धकं हिमपीतमालेन्द्रनीलाभान्पीतवाससः शङ्खचक्रगदापद्मधारिणस्तां चतुर्भुजन् दिग्गन्धेषु पत्रेषु दमकादीन्यजेद्गजान् दमकं पुण्डरीकं च गुगुलं च कुरण्टकं यजेच्छङ्कनिधिं देव्या दक्षिणे प्रमदान्विदान् मुक्ता माणिक्यशङ्कास्यौ अन्योन्यालिङ्गनपरौ शङ्खपङ्कजदािणौ विकलद्रत्नवर्षाभ्याम् शङ्खाभ्यां मूर्ध्नि लाञ्झितौ mm. तुन्दिलं कम्बुकनिधिं वसुधारां घनस्तनीं वा मदपङ्कजनिधिं प्रियया सहितं यचेत सिन्दूराभौ भुजश्लिष्टौ रक्तपद्मोत्पलान्वितौ निःसरद्रत्नवर्षाभ्यां पद्माभ्यां मूर्ध्नि लाञ्छितौ तुन्दिलं पङ्कजनिधिं तत्त्वां वसुमतीमपि दलाग्रेषु यजे देदा बलाख्याद्याक् समं बलाकी विमला चैव कमला वनमालिका विभीषिका मालिका च शाङ्करी वसुमालिका पङ्कजद्वयधारिण्यमुक्ताकारसमप्रभा लोकेशान् पूजये दन्ते वज्राद्यास्त्राणि तद्बहिः इद्धं यो भजते देवीं दे विधिना साधगोत्तमः धनधान्यसमृद्धस्य श्रियमाप्नोत्यनिन्दिदाम् वक्षप्रमाणसलिले स्थित्वा मन्त्रमिपं जपेद् त्रिलक्षमर्कगम् ध्यायन् स भवेत् कमलालयः विष्णो गेहस्तबिल्ल्वस्य मूले लक्षत्रयं जपेद साधको यः स लभते वाञ्छितं धनसञ्चयम् अशोका वह्ना वाज्याख्रायस्तण्डुलायर्वशयेज्जग होमेन खादिरे वह्नौ तण्डुलेर्मधुरोक्षितैः राजावश्यो भवेच्छीक्रमः लक्ष्मीश्च वर्धते बिल्वछायामधिवसन् बिल्वमिश्र हविष्यभुक संवत्सरत्रयं हुत्वा तत्फलैरधवाम्बुजैः साधकेन्द्रो महालक्ष्मीं चक्षुषा पश्यति ध्रुवम् अधकल्पान्धरे ब्रह्मन्देवराज्यविलुम्बकौ जादौ शुभनिशुम्भौ द्वावसुरौ लोककण्टकौ ततो भ्रष्टाधिकारैस्तु शक्राद्यैः संस्तुता मुने देवी तदा चावततारः हिमालये महापुण्ये शैलोद्देशे दिशोभने तत् शुम्भादिकान् दत्वा दैवतै परिपूजिता परं दत्वा विश्वदेवी मानसं नाम तस्या मन्त्रं प्रवक्ष्यामि शृणुष्वावहितो मुने ज्ञानामृत शशधराक्रान्तभालोपशोभिता वाग्बीजं तेन चाङ्गानि कल्पयेत्साधकोत्तमः ऋषिः सदा शिवश्चास्य छन्दो नोष्टुबुधा हृदं देवदा वाक्समाख्यादा भजदामिष्टदायिनी श्वेदाम्बरां विसश्वेदाम् वीणापुस्तकधारिणीं दिव्यैराभरणैर्युक्तां ध्याये देवीं निरन्तरं महासरस्वतीपीडे मूर्तिमूलेन कल्पयेत् देवीं सम्पूजयेत् तस्य मङ्गा अध्यावरणैः सह आदावङ्गावृदि पाश्चादम्भिकाद्या समेरिताः द्वितीया मातृभिप्रोक्ता तृतीया अध्यष्टशक्तिभिः चतुर्थी पञ्चमी प्रोक्ता द्वा त्रिंशच्चक्रिभिः पुनः चतुष्षष्ट्या स्मृता षष्टि शक्तिभिर्लोकनाय हैः सप्तमी पुनरेतेषामस्त्राय स्यादष्टमावृतिः एवं पूज्य जगद्धात्री श्रीमदी वाग्भवाभिधा स्थानेषु पूर्वमुक्तेषु ये जय दङ्गानिसाधकः अम्बिका वाग्भवदुर्गा श्रीशक्तिश्चोक्तलक्षणा श्री श्री प्रमाद्या च तदपूज्या करालिविकराल्युमा सरस्वती श्रीदुर्गा च लक्ष्मीश्चैव हृदि स्मृतिः श्रद्धा मेधा रजिकान्तिर् आर्या षोडशशक्तयः कङ्गकेटकधारिण्यश्यामा पूज्यास्वलं कृताः विशक्निपुष्टय प्रज्ञासिनीवालीगुहूः पुनः रुद्रवीर्या प्रभानन्दपोषणवृद्धिदा शुभा कालरात्रिर्महारात्रिर्भद्रकाली कवर्दिनी विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा श्रीखण्डिनी निशुम्बमथनी चण्डमुण्डविनाशिनि इन्द्राणि चैव रुद्राणि शङ्करार्धशरीरिणि नारीनारायणि चैव त्रिशूलिन्यपिपालिनि अम्बिका ह्रातिनि चैव चक्रहस्ता पिशा चास्य सम्भूज्याश्चारुभूषणाः पिङ्गलाक्षि विशालाक्षि समृद्धिर्बुद्धिरेव च श्रद्धा स्वाहा स्वधा भिक्षा माया सप्ा वसुन्धरा त्रिलोकधात्रीकायत्री सावित्री त्रिदशेश्वरी सरूपा बहुरूपा च स्कन्दमादा श्रुतप्रिया विमला कमला पश्चादरुणी पुनराजुणी प्रकृतिर्विकृतिसृष्टिस्थितिसंहृदिरेव च सन्ध्यामादा सती हंसी मर्जिका वज्रिका परा देवमाता भगवती देवकी कमलासना त्रिमुखी सप्तवदना सुरा सुरविमर्दिनी लम्बोष्टी चोर्ध्वकेशीज बहुशिष्णा वृकोदरी रथरेखा क्वया पश्चाच्चशिरेखा तथा परा गगनवेगापवनवेगा वेगा च तदनन्तरं तदो भुवनपालाख्य मदनातुरा अनङ्गानङ्गवदना तथैवानङ्गमे कला अनङ्गकुसुमाविश्वरूपा सुरभयङ्करी अक्षोभ्या सप्तवाहिन्या वज्रारूपा शुचिप्रदाः वरदाख्यादवागीषी चतुष्षष्टिः समीरिताः स भवानधरा सर्वाज्ज्वाला जिह्वा महाप्रभाः दंष्टिन्यश्चोर्ध्वकेश्यस्त युद्धोपक्रान्तमानसाः सर्वाभरणसं दीप्ता पूजनीया प्रयत्नतः लोकेशा पूर्ववत्पूज्यास्तद्वद्वज्रादिकान्यपि जपे षोडशलक्षं च तद् दशांशं पुनः सुधीः आज्येन कातिरे वग्नौ तदसिद्धो भवेन्मनुः कमलैरयुतम्भुत्व राजानं वशमानयेद् उत्पलैर्जुह्वदो नूनं महालक्ष्मी प्रजायते पलाशाकुसुमैहुत्वावसरेण कविर्भवेद् राजीलवण होमेन वनितां वशमानयेद् भूमौ भोगां स्तु भुक्त्वां बीज वाणीबीजजपशब्दो नात्र कार्याविचारणा ना। इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे देवीमन्त्रनिरूपणं नाम चतुरशीतितमोऽध्यायः ओम्